तस्यात्मानम् सन्त्यजतो लोका नश्यन्त्यनात्मनः तस्माद्द्रौपद्यशक्तस्य मन्योर्नियमनम् स्मृतम् विद्वांस्तथैव यः शक्तः क्लिश्यमानो न कुप्यति अनाशयित्वा क्लेष्टारम् परलोके च नन्दति तस्माद्बलवता चैव दुर्बलेन च नित्यदा क्षन्तव्यम् पुरुषेणाहुरापत्स्वपि विजानता स्मन्योर्हि विजयं कृष्णे प्रशंसन्तीह साधवः क्षमावतो जयो नित्यं साधोरिह सताम् मतम् सत्यम् चान्द्रिततः श्रेयो नृशम् स्याच्छान्द्रिशंसता तमेवम् बहु दोषम् क्रोधं साधु विवर्जितं। मादृशः प्रसृजेत्तस्मात् सुयोधनवधादपि तेजस्वीतियमाहुर्वै पण्डितादीघदर्शिनः न क्रोधोऽभ्यन्तरस्तस्य भवतीति विनिश्चितम् यस्तु क्रोधं समुत्पन्नं प्रज्ञया प्रतिबाधते तेजस्विनन्तम् विद्वांसो मन्यन्ते तत्त्वदर्शिनः क्रुद्धो हि कार्यम् सुश्रोणि न यथावत् प्रपश्यति नाकार्यम् न च मर्यादान्नरः क्रुद्धोऽनुपश्यति हन्त्यवध्यानपि क्रुद्धो गुरून् क्रुद्धस्तु दत्यपि तस्मात् तेजसि कर्तव्यः क्रोधो दूरे प्रतिष्ठितः दाक्ष्यम् ह्यमर्षः शौर्यम् शीघ्रत्वमिति तेजसः गुणाः क्रोधाभिभूतेन न शक्याः प्राप्तुमञ्जता